श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् अथ प्रथमः सर्गः तपस्वाध्यायनिरतम् तपस्वी वाग्विदाम्बरम् नारदम् परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् कोऽन्वस्मिन् साम्प्रतम् लोके गुणवान् कश्च वीर्यवान् धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः चारित्रेण च चा को युक्तः सर्वभूतेषु कोहितः विद्वान्कः कः समर्थश्च कश्चैकप्रियदर्शनः आत्मवान्को जितक्रोधोद्युतिमान्को न सूयकः कस्य बिभ्यति देवाश्च संयुगे एतदिच्छाम्यहम् श्रोतुम् परम् कौतूहलम् हि मे महर्षे त्वम् समर्थोऽसि ज्ञातुमेवम् विधम् नरम् श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः श्रूयतामिति चामन्त्र्यप्रहृष्टो वाक्यमब्रवीत् बहवो दुर्लभाश्चैव ये त्वया गुणाः मुने वक्ष्याम्यहम् बुद्ध्वा तैर्युक्तश्रूयताम् नरः इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी बुद्धिमान् नीतिमान्वाग्मी श्रीमान् छत्रुनिबर्हणः विपुलाम् सो महाबाहुः कम्बुग्रीवो महाहनुः महोरस्को महे श्वासो गूढचत्रुररिन्दमः आजानुबाहुः सुशिराः सुललाटः सुविक्रमः समः समविभक्ताङ्गस्निग्धवर्णः प्रतापवान् पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः धर्मज्ञः सत्यसन्धश्च प्रजानाञ्च हितेरतः यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान् प्रजापति समश्रीमान् धाता रिपुनिषूदनः रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः सर्वशास्त्रार्थतत्त्वज्ञ स्मृतिमान् प्रतिभानवान् सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः आर्यः धैर्येण हिमवानिव विष्णुना वीर्ये सोमवत्प्रियदर्शनः कालाग्निसदृशः क्षमया पृथिवी धरदेव समस्यात्यागे सत्ये धर्म इवापरः तमेवम् गुणसम्पन्नम् रामम् सत्यपराक्रमम् ज्येष्ठम् ज्येष्ठगुणैर्युक्तम् जेश्थ प्रियम् दशरथः सुतम् प्रकृतीनाम् हितैर्युक्तम् प्रकृतिप्रियकाम्यया यौवराज्येन संयोक्तमैच्छत्प्रीत्या महीपतिः तस्याभिषेकसम्भाराम् दृष्ट्वा भार्याथकैकै पूर्वम् दत्तवरा देवी वरमेन वयाचत च रामस्य भरतस्याभिषेचनम् स सत्यवचनाद्राजा धर्मपाशेन संयतः विवासयामासुतम् रामम् दशरथः प्रियम् स जगामवनम् वीरः प्रतिज्ञामनुपालयन् पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् तम् व्रजन्तम् प्रियो भ्राता लक्ष्मणोऽनुजगामः स्नेहाद्विनयसम्पन्नः स्वमित्रानन्दवर्धनः भ्रातरन्दयितो भ्रातुः सौ भ्रातृमनुदर्शयन् रामस्य दयिता भार्या नित्यम् प्राणसमाहिता जनकस्य कुले जाता देवमायेव निर्मिता सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः सीताप्यनुगतारामं रामम् शशिनम् रोहिणी यथा पौरैरनुगतो दूरम् पित्रा दशरथेन च शृङ्गवेरपुरे सूतम् गङ्गाकुले व्यसर्जयत् गुहमासाद्य धर्मात्मा निषादाधिपतिम् सहितो रामो लक्ष्मणेन च सीतया तेवनेन वनम् गत्वा नदीस्तीर्त्वा चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् रम्यमावसनम् कृत्वा रमबणावने त्रयः देवगन्धर्वसङ्काशास्तत्र तेऽन्यवसम् सुखम् गते रामे पुत्रशोकातुरस्तदा राजा दशरथ स्वर्गम् जगाम विलपन् गते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः नियुज्यमानो राज्ञाय नैच्छद्राज्यम् महाबलः स जगाम वनम् वीरो रामपादप्रसाधकः गत्वा तु स महात्मानम् रामम् सत्यपराक्रमम् अयाच भ्रातरम् राममार्यभावपुरस्कृतः त्वमेव राजा धर्मज्ञ इति रामम् वचोऽ ब्रवीत् रामोऽपि परमोदारस्वमुखस्व महायशाः न चैच्छत्पितुरादेशाद्राज्यम् रामो महाबलः पादुके चास्य राज्याय न्यासम् दत्त्वा पुनः पुनः निवर्तयामा सततो भरतम् भरताग्रजः स काममनवाप्यैव रामपादावुपस्पृशन् नन्दिग्रामेकरो द्राज्यम् रामागमनकाङ्क्षया गते तु भरते श्रीमान् सत्यसन्धोजितेन्द्रियः रामस्तु पुनरालक्ष्य नागरस्य जनस्य च तत्रागमनमेकाग्रो दण्डकान् प्रविवेशः प्रविश्यतु महारण्यम् रामो राजीवलोचनः विराधं राक्षसम् हत्वा शरभम् गम् ददर्शः सुतीक्ष्णम् चाप्यगस्त्यम् च अगस्त्यभ्रातरम् तथा अगस्त्यवचनाच्चैव जग्राहैन्द्रम् शरासनम् खड्गम् च परमप्रीतस्तूणी चाक्षयसायकौ वसतस्तस्य रामस्य वने वनचरैः सह ऋषयोऽभ्यागमन् सर्वे वधा यासुर रक्षसा स तेषाम् प्रतिशुश्रावराक्षसानाम् तदा वने प्रतिज्ञातश्च रामेण वधः संयति रक्षसा ऋषीणामग्निकल्पानाम् तेन तत्रैव वसता जलस्थाननिवासिनी विरोपिता शोर्पणखा राक्षसी कामरूपिणी ततः शोर्पणखा वाक्यादुद्युक्तान् सर्वराक्षसान् खरम् त्रिशिरसम् चैव निजघानरणे रामस्तेषाम् चैव पदानुगान् वने तस्मिन्निवसता जलस्थाननिवासिना रक्षसान्निहतान्यासन् सहस्राणि चतुर्दश ततो ज्ञातिवधम् श्रुत्वा रावणः क्रोधमूर्छितः सहायम् वरयामास मारीचन्नामराक्षसम् मार्यमाणःसु बहुशो मारीचेन स रावणः न विरोधो बलवता क्षमो रावण तेन रावणः कालचोदितः जगामसः मारीचस्तस्याश्रमपदम् ददा तेन मायाविना दूरमपवाह्य जहारभार्याम् रामस्य गृध्रम् हत्वा जटायुषम् गृध्रम् च निहतम् दृष्ट्वा हृताम् श्रुत्वा च मैथिली राघवः शोकसन्तप्तो ततस्तेनैव शोकेन गृध्रम् दग्ध्वा जटायुषम् मार्गमाणो वनेऽसीताम् राक्षसंसन्ददर्शः कबन्धम् नाम रूपेण विकृतम् घोरदर्शनम् तन्निहत्य महाबाहु ददाह स्वर्गतश्च सः स कथयामास शबरीम् धर्मचारिणीम् श्रवणाम् धर्म, धर्म निपुणामभिगच्छेति राघव सोऽभ्यगच्छन् महातेजाः शबरीम् शत्रुसूदनः शबर्यापूजितः सम्यग्ग्रामो दशरथात्मजः पम्पातीरे हनुमता सङ्गतो वानरेणः हनुमद्वचनाच्चैव सुग्रीवेण समागतः सुग्रीवाय च तत्सर्वम् शंसद्रामो महाबलः आदितस्तद्यथावृत्तम् सीतायाश्च विशेषतः सुग्रीवश्चापि तत्सर्वम् श्रुत्वा रामस्य वानरः चकारसख्यम् रामेण प्रीतश्चैवाग्विसाक्षिकम् ततो वानरराजेन वैरानुकथनम् प्रति रामायावेदितम् सर्वम् प्रणया दुःखितेन च प्रतिज्ञातम् च रामेण तदा बालिवधम् प्रति वालिनश्च बलम् तत्र कथयामास वानरः स्वग्रीवः शङ्कितश्चासीत् नित्यम् वीर्येण राघवे राघवप्रत्ययार्थम् तु दिन्दुभेः कायमुत्तमम् दर्शयामास सुग्रीवो महापर्वतसन्निभम् उत्स्मयित्वा महाबाहुः प्रेक्ष्य महाबलः पालाङ्गुष्ठेन चिक्षेप दशयोजनम् बिभेद सप्तैकेन महेषुणा गिरिम् चैव जनयन् तदा ततः प्रीतमनास्तेन विश्वस्तः स महाकपिः रामसहितो जगाम तदा ततो गर्जद्धरिवरः सुग्रीवोऽहेमपिङ्गळः तेन नादेन महता निर्जगामहरीश्वरः अनुमान्यतदाताराम् सुग्रीवेण समागतः ततः सुग्रीव वचनाद्धत्वा बालिनमाहवे सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् स च सर्वान् समानीय वानरान् बालर्षभः दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजा ततो गृध्रस्य वचनात् सम्पातेर्हनुमान् बली शतयोजन विस्तीर्णम् पुप्लुवे लवणालवम् तत्र लङ्कान् समासाद्य पुरीम् रावणपालिता ददर्शसीताम् ध्यायन्तीमशोकवनिकाम् गताम् निवेदयित्वाभिज्ञानम् प्रवृत्तिम् विनिवेद्य च समाश्वास्य च वैदेहीम् मर्दयामासतोरणम् पञ्चसेनाग्रगान् हत्वा सप्तमन्त्रिसुतानपि शूरमक्षम् च निष्पिष्य ग्रहणम् समुपागमत् अस्त्रेणोन्मुक्तमात्मानम् ज्ञात्वा पैतामहाद्वरा मर्शयन् राक्षसान् वीरो यन्त्रिणस्तान् यदुर्च्छया ततो दग्वा पुरीम् लङ्कामृते सीताञ्च मैथिली रामाय प्रियमाख्यातुम् पुनरायान्महाकविः सोऽभिगम्यमःत्मानम् कृत्वा रामम् प्रदक्षिणम् यवेदयदमेयात्मा दृष्टासीतेति तत्त्वतः ततः सुग्रीवसहितो गत्वा तीरम् महो दधेः समुद्रम् क्षोभयामास शरैरादित्यसन्निभैः दर्शयामास चात्मानम् समुद्रः सरिताम् पतिः समुद्रवचनाच्चैव नलम् सेतुमकारयत् तेन गत्वा पुरीम् लङ्काम् हत्वा रावणमाहवे रामः सीतामनुप्राप्य पराम् व्रीडामुपागमत् तामुवाच ततो रामः परुषम् जनसंसदि अमृष्यमाणा सा सीता विवेशज्वलनम् सती ततोऽग्निवचनात् सीता ज्ञात्वा विगतकल्मषाम् कर्मणा तेन महता त्वैलोक्यम् स चराचरम् सदेवर्षिगणम् राघवस्य महात्मनः बहो रामः सम्प्रहृष्टः पूजितः सर्वदैवतैः अभिषिच्य च लङ्कायाम् राक्षसेन्द्रम् विभीषणम् कृतकृत्यस्तदा रामो विज्वरः प्रममोदः देवताभ्यो वरम् प्राप्य समुत्थाप्य च वानरान् अयोध्याम् प्रस्थितो रामः पुष्पकेण सुहृद्वृतः भरद्वाजाश्रमम् गत्वा रामः सत्यपराक्रमः भरतस्यान्तिके रामो हनुमन्तम् व्यसर्जयत् पुनराख्यायिताम् जल्पम् सुग्रीवसहितस्तदा पुष्पकम् तत्समारुह्य नन्दिग्रामम् ययौ ददा नन्दिग्रामे जटाम् हित्वा भ्रातृभिः सहितो नघः रामः सीतामनुप्राप्य राज्यम् पुनरवाप्तवान् प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः न पुत्रमरणम् केचिद्रक्ष्यन्ति पुरुषाः क्वचित् नार्यश्चाविधवा नित्यम् भविष्यन्ति पतिव्रताः न चाग्निजम्भयम् किञ्चिन्नाप् सुमज्जन्ति जन्तवः न वातजम्भयम् तथा न चापि क्षुद्भयम् तत्र नतस्करभयम् तथा नगराणि च राष्ट्राणि धनधान्ययुतानि च नित्यम् प्रमुदिताः सर्वे यथा कृतयुगे तथा अश्रमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः गवाम् कोट्ययुतम् दत्त्वा विद्वद्भ्यो विधिपूर्वकम् असङ्ख्येयम् धनम् दत्त्वा ब्राह्मणेभ्यो महायशाः राजवंशान् शतगुणान् स्थापयिष्यति राघवः चातुर्वर्ण्यम् च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति दश वर्षसहस्राणि दशवर्षशतानि च रामो राज्यमुपासित्वा ब्रह्मलोकम् प्रयास्यति इदम् पवित्रम् पापघ्नम् पुण्यम् वेदैश्च संवितम् यः पठे द्रामचरितम् सर्वपापैः प्रमुच्यते एतदाख्यानमायुष्यम् पठम् रामायणम् नरः स्वपुत्र पौत्रः सगणः प्रेत्य स्वर्गे महीयते पठन् द्विजो वा गृषफ स्यात् क्षत्रियो भूमि पतित्वमीयात् वणिग्जनः पण्यफलत्वमीयाज्जनश्च शूद्रोऽपि महत्त्वमीयात् इत्यार्षे श्रीमद् रामायणे आदिकाव्ये बालकाण्डे प्रथमः